स्वाद्मेन्त्वाः स्वादुनाः हे अव्राम् तेण ते अमृता मृतेन मधुमते मधुमता सजाभिषकुम् सोमेन सोमाः सृष्टिभ्याम् वचस्व हरस्वर्ति वच्चस्व इन्द्राकृचस्व परितोषिञ्चदासुतम् सोमोयमुः सुन्दरा सुषावसमद्रिभिः पुराजेवम् स्वंसौर्यस्य लिभिता बालेण शश्वतादनाः बाह्यः पोदः पवित्रेण राम् इन्द्रश्रयुजस्तः बाह्यः पोदः पवित्रेण प्रत्याम् स्वमानित्रतः इन्द्रयुध्यस्तखाः ब्रह्मक्षत्रम् पवदेते इन्द्रियम् स्वयासोमःता सुतोमदाय ञ्च यथा पूर्वम् वियूयोजनानिर्नजग्मोतोभ्याम् पार्मितम् गृह्णामि सरस्वत्या इन्द्राकुताम्ने एषोस्ते वेर्यायत्वा बलायत्वा तेजोसि तेजोमयुधेः वेर्यमसि वेर्यम् वयुधेः फलमसिलम् वयुधेः नानाम् सदःकृतम् मादकम् सुक्षासाम् परमेऽप्यमतिमाविशन् उपयापदेतवास्याजः सारस्वतम् वेर्यम् ऐन्द्रम् बलम् एष तेजो निर्मोदायत्वा आनन्दायत्वा महधेयत्वा चास्योचो जो मैथेः मन्यदु मन्यम् मैथेः मोहामहो मैथेः सहो निमहो मैथेः या व्याघ्रम् विशोचिका उभोवृजम् च रक्षति शयनम्बदत्विनगुम् शगुम्भाम् सेमम् वृन्ता विभृच्छात्मना वृन्ता यः नृत्यम् हृदयेन सत्यमिन्द्रियम् इन्द्रस्य इन्द्रियम्बयो छन्दजांशस्वृदय सत्यमिन्द्रियाम् अद्भ्याः क्षेरम् व्यपि कृङ्गाङ्गदयेन सत्यमिन्द्रियम् अन्नाः परिस्पतोरथम् ब्रह्मणाम्य विवक्षत्रम् ऋदयेन सत्यमिन्द्रियाम् हे रोमोऽत्रम् विजहाजे प्रविजलम्भम् जहादिजन्मनः सत्यमिन्द्रियम्पेव्यकरोत्ते प्रजापतिः सत्यमिन्द्रियाम् सोमेन सोमो सुता सुतो प्रजापतिः ऋदेन सत्यमिन्द्रियाम् दृष्ट्वाकरोत् सत्यालते प्रजापतिः अश्रद्धापजयथा श्रद्धाकम् सत्यप्रजापतिः तदेन सत्यमिन्द्रियम् दृष्वापरिसम् शुक्रेण शुक्रम्य विपदे पयः सामम् प्रजापतिः तदेन सत्यमिन्द्रियम् विपानकम् शुक्रमन्धरः इन्दस्येन्द्रियम् इदम् पयामृतर्म सुरामन्तम्बरहितरम् सबीरम् यज्ञमुहिन्मन्त्यमहिमाभिः र्पा यस्तेज ते सोमस्य तेन जन्मैजमानम् मदेन सरस्वती अश्विनाविन्द्रमग्निम् यमश्विनानुमुचेना सुरस्वत्यधुराजिन्द्रियाय मन्दकुशुक्रम् मधुमन्दमिन्दुम् सोमकं राजानविरवक्षयामित्तकम् रजिनस्वतस्य यदिन्द्रापि वर्षते अहन्तरश्रमदाश स्वं राजानविलभक्षयामि चतुर्भ्यस्त नमः विरामहेभ्यस्तमः नमः अक्षन्वितरः अमीमदन्तवितलः अजीतरवन्तवितरः अमीमजन्तवितलः वितरः शृन्ध्वम् वनन्दमा वितरः सौम्यासः वनन्तु मातामहाः पुनन्दप्रविदामः पवित्रेण सताविभा पुनन्तुमापितामहाः पुनन्दप्रविदामहाः पवित्रेण सता विश्वमायव्यष्णवे अग्योगं शिवसेस्व अवमानस्वर्जनः पुनन्तुमादेव जनाः गाधवेन पवित्रपद्यते पवित्रमत्विदे पुनतिनाः स मनसः तेषाम् लोकस्वधा नवः यज्ञादेवेषु कल्पदाताः समनतः देवा देवेषु मामकाः एषा विश्वेर्नय कल्पता अस्मिन् लोके शतकम् समाहाः द्वे श्री अश्रणमम् विदनाम् अहम् देवानामुदमर्त्यानाम् ह्याभ्याम् इदम् विश्वमे गत्समे ये इदन्तरातरम् मातरम् च इदगम् हविप्रजनम् मे अस्तु <activities> दशवेदकम् सर्वगणग् स्वस्तये आत्मसनिप्रशासने पशुसन्भयसनि लोकसने अग्निप्रजाम्बुनाम् मे करोतु हन्नम्ब योतो अस्मातु सत्ता रायस्पोषमिषमोर्जमस्मासुतीर्थे नमलदामने पूर्णा सूत्रेण कमया वयन्ति अश्मिना यज्ञा सरस्वती इन्द्रस्य लोकम् वर्णोऽभिष्यन्यः तिश्रोतशर्देवदाः सगुरराणाः रोमानुचेर्पथानतोमभिः पगस्य मागुसमवर्णराजाः रुद्रवर्तने सरस्वती वैदिमेषो अन्तरः अस्य मज्जानम् मातरेः कालोकरेण दशतोजे सरस्वती मनसा पेशम् ृतानलोहिदम् अर्णवद्धेरस्तशर्णवेम अयथा शुक्रपदम् नेत्रम् सुरजामोत्राजनयन्तेर्मदिम् बाधमानाः पूमभ्यम् वाचकम् सभवन्तदालात् इन्द्रः सुप्रामाहृदयेन सत्यम् पुरोडाशेन सुणाभिरज्यन् नमिनादि तस्यैवयव्ययेणस्थाने बुधमानात्राणि आसन्भोपलक्षाश्रेत्सः कुम्भे यः युक्त्वा पवित्रमश्विनाथकम् सरस्वती च पन्नपायुर्भिडकस्य बालः अस्यन्न चेत् मोहरदादरसी अश्रुभ्याम् चक्षुरमुदसङ्ग्रहाभ्याम् शागेण पक्ष्माणि गोधो मेष्कलेरुतानि पेषुक्लमजे अविर्णमेषो निधिवेर्याय प्राणस्य पन्थामृतो ग्रहाभ्याम् सरस्वत्यवागेर्ज्ञानम् नस्यान् परिहद्बदरेन्द्रजा इन्द्रश्च लोकरोहराय कर्णाभ्याोत्रमृतङ्ग्रहाणाभ्याम्परिहद्भुविकेतराणि कर्कन्धुज्ञे मधुरारखम् मुखान् आत्मनुपस्थयनवस्य लोमे श्वश्रो निनव्याः अग्रलोमम् ङ्गान्यात्मन्विना आत्मानमङ्गैः समधात् सरस्वती इन्द्रस्तरूपकं शलमानवायोः सरस्वती योऽन्याम् गर्भवन्तः अश्रुभ्याम् पत्नी सुकृतम् विभत्ते अपागम् रथेण वरुणो नधाम्ना इन्द्रज्ञश्रये जनेन्नप्सुराजा तेजः पशो नागम् भवेन्द्रियापदे अयस्वता वयसा रघम् अथ अश्रुभ्याः दुग्धम् भिजात स्मर्जातासुताभ्याः अमृतस्वमयिन्दुः मित्राविमरुणाशे समहम् मिश्रेय रेवेः क्षत्रस्य नाभिरसे क्षत्रस्य योनिरसे शवनामासेन सुषदामासेन महात्माहिपुंसेन मामाहिगुंसेन इडदार्थदव्रतमरुणः अस्याः स्वा साम्राज्यायशुक्रदोः देवस्य अश्विनाग् बाहुभ्याम् ओष्णास्ताभ्याम् अश्विनाद्भैषजेन ब्रह्मवर्त्रसा याभिरुञ्जामि देवस्यत्तासविनः प्रथवे अश्विनाग् बाहुभ्याम् ओष्णास्ताभ्याम् सरस्वत्यैभैषजेन वीर्यायान्नाद्यायाभिरुञ्चामि एवस्य नाशमितः प्रथमे अश्विना बाहुभ्याम् ओष्णोहस्ताभ्याम् इन्द्रस्य इन्द्रियेन श्रीरसयफलाय अभियुञ्जामि कोशिलकमोऽपि तस्मै सोमङ्गला सत्यराय श्रेः यशोमुखम् तुषट्केशाश्रूणि राजाने प्राणामृतम् सम्राचक्षुः विराक्षोत्रम् जक्वामे भद्राम् वाङ्महः मनोमन्यः स्वराग्भामः मोदाः प्रमोदाङ्गुलीरङ्गाणि चित्तम् मे सह बाहो मे बलमिन्द्रियम् हस्तौ मे कर्म वीर्यम् आत्मा क्षत्रमुरोम पृष्टेर्मे राष्ट्रमुदर्मपुंसौ देवाश्च श्रोन्यौ ऊरु अर्त्री जानुलीशो मेऽङ्गामि सर्वदः नाभिर्मे चित्तं विज्ञानम् वायुर्मे परिजर्भसज आनन्दनन्दाभाण्डौ मे जङ्घाःभ्याम् मद्भ्याम् धर्मोस्मि विधिराजा प्रतिष्ठितः प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन् प्रयप्राणेषु प्रतितिष्ठामि पुष्टे प्रयत्यावाः प्रतितिष्ठामि यज्ञे त्रया देवानेकादशः त्रयत्रिवंशासुराधदः बृहस्पतिवलोहिताः देवः सर्मितः समे देवादेवेन दे वन्तुमा प्रथमा द्वितीयैः द्वितीयास्तृतीयैः तृतीया सत्ते सत्तेन सत्यै यज्ञेन यज्ञो युजुद्भिः यजोगम्शमभिः सामान्यद्भिः ऋजो याज्याभिः याज्यावषत्कारैः वृषङ्कारा भो स्वाहा लोमाणिप्रेतर्ममा त्वम् मानजनागतिः बस वासम् अवपणतिः वस्वस्ते मज्जामानदिः यद्देवादेवहेलनम् देवादश्च कृपा वयम् अज्ञन्मादस्वादेन सह विश्वानाम्भुञ्जत्वगृंहसः यदि वाहिदिनक्तम् हेणाकुंस च कृपा वयम् वायन्मादस्मादेन सह विश्वान् यजा स्वप्ने एनागुंस्य च क्रमा वयम् शूर्यमादस्मादे सह विश्वान्मुञ्जत्वगुम्वदः यद्ग्रामेदरण्ये यत्सभाया यदिन्द्रिये यच्छोत्रे गदर्ये येनश्च क्रमा वयम् यदेकस्यासि शर्मये यदा पोर्भिया वरुणे मित्राणावयः सन्तो दुर्मित्रास्तस्मै भूयासुः योऽस्मान्द्वेष्टे किञ्च वयम् दुष्मः द्रुपदादिवेन्मजानः छिन्नस्नात्ते वनादिव भूतम् पवित्रेणैवाज्यम् तापश्यन्धन् तुमेन सह उद्भयन्तमचस्परे पश्यन्तु ज्योतिरुत्तरम् रेवन्देवयम् अगन्मद्योजरुत्तमम् हृदयितो वरुणस्य पाशः प्रत्यस्त्ववरुणस्य पाशः एतेजोपैधेः अपो अन्वचारिषम् रसेरथमलक्ष्महे अयष्वागमग्नागमम् तम् मासगम् च वर्तसा पलयाजधनेन च समापवर्त्यपृथिले समुषाः समधूर्यः समविश्वमिदम् जगदे अयश्वानरज्जार्भोयासम् विभङ्गामव्यमे भो स्वाहा भोधिष्ठस्वर्षेधान् वेत्त्वाजस्य होदर्यज होदायक्षत्रनोनपादम् भोजिभिर्देवरमपराजितम् इन्द्रम् देवकंसु अर्पितम् अतिभिर्मधुमक्तमेः न रासुंसेन तेजसा वेत्त्वाजस्य होधर्यज होदायक्षतिजाेन्द्रमेतम् आजुह्वानमर्त्यम् एवो देवैः सवे यः वज्रहस्तपुरन्दरः े त्वाजस्य होतर्यज ोदायक्षद्बलिरेन्द्रनिषद्वरम् प्रभन्नर्यापसम् हो वसुभेरुत्रेरा यत्तेः प्रयद्भ्यद्बलहिरासत् हेत्वाजस्य होतर्यज ओदायक्षतो जोनवेर्यम् सो द्वारेन्द्रमवर्धयन् सुप्रायणाविश्रयन्तावृतावृथः द्वारेन्द्राय पोतायक्षुषेन्द्रस्य धेनो सुदुहे वातरौ महे स वातरौ न तेजसी वत्समिन्द्रुमवर्धना वेतामाजस्य होदर्गिण पोतायक्षद्देहोदार अविजेन्द्रम् भिडज्जनः अविदेवौ प्रजेतसौ इन्द्रायहत्त्रियम् स्पदे भारते महेन्द्रवत्रेलहविष्पतेः वियन्द्वार्यस्य होदरञ्जल भवतायक्षत्तष्टा हो रविन्द्रम् देवम् भजरगम् श्रीजङ्घदर्शयम् पुरलोपकम् सुरेद्रहम् मघवनिम् इन्द्रायत्तष्टादश इन्द्रियाणि वेदत्वार्यस्य होदर्ज भवतायक्षद्वनस्पतिम् हो श्रवितारकम् धियो जोष्टमिन्द्रियम् मग्धासुमञ्जन्मतिभिः सुकेभिः स्वदाज हव्यम् वसुदाशतेन वेत्त्वाद्यस्य होदर्य होदाय क्षलेन्द्र स्वाहाद्यस्य स्वाहा मेधसः स्वाहा स्तोकानाम् स्वाहा स्वाहा स्वाहा हव्यसोक्येनाम् स्वाहा देवागृपाद्यपाय स्वाहेन्द्रगुम्होत्राक्षुषाणाः इन्द्राद्यस्य वियन्तो भोदलिया समिर्भेन्द्रवृषधामीके पुरोरुचा पूर्वशत्वा विधानः त्रिभिर्देवे स्त्रिविंशदावृद्रबाहो यकारवृत्तम् वितलोपवान न राशगम् सप्तदिशोरानः नो न पात्मयज्ञस्य धाम आयत्वाना हविषाशब्धमानः पुरन्तराखवानग्रबाहुः आयाति विद्यमुखनाुषाणः विषाणा परिहरहरिहान्न इन्द्रः राजेन कुंशे तत्पदिशापथव्याः उव्यजाः पथवानव्यस्वान् आदित्यैरक्तम्प्रजोषाः इन्द्रम्लकवश्यो शावमानाः विषालैयद्विनयः सुवीरा वीरम् प्रथमा नामहोभिः पुनक्ताहदे गृहन्तम् पयस्पतिसुघेषु रविन्द्रम् पेषस्पतितन्तुना सञ्जयन्तिगतस्वक्मे ते व्याभिमानामनसा वरुक्ता भवता राविन्द्रम् प्रथमा सुभाजा मूर्धनयज्ञस्य मधुना प्रधाना राजेन्दोदकविधातः हिस्व देवेरभिवर्धमानाः इन्द्रन्यषाणाभृषन्नपत्नीः अर्चिन्नन्तम् तम् वयसा सरस्वती देवे भारते विश्वतो भक्तिः कष्टादर्हिषणम् भोरेताः मोर्धने यज्ञः समनकृदेवान्वदृष्टोनपाशैः सन्न्यासमञ्जंसमितारदेवः इन्द्रस्य हव्ये गठनम् प्रणालः पुरादिहव्यम् मृधुना हृदेन शोकानामिन्द्रम् प्रतिशोरीन्द्रः राघा मृधुना हव्यधयज्ञश्रवाहा आदर्षिप्रागवेशजन्माः रघुंश्रे देयेः सत्यमित्तन्नत्वा वागुम् अन्यो अस्ति इन्द्रदेवानमर्त्यध्यायान् अहम् नहिम् परिशया न मन्नः अवादशो अच्छादमुद्रम् इन्द्राभरदक्षिणे नाम सूमे पतिधो नामेव्युम्नमस्मे ना। मयिक्षत्रम् च नागादिम् दत्तव्यम् रक्षाजनावधान प्राहिसूर्येण राजेशरस्वपत्या विधेधाः देवम् बलिहरिन्द्रगुंसु देवम् देवैः वीरवत्से अन्नम् वेद्याववर्धयत् वस्तो धृतम् राजा बहिष्मतो वसुवने मधुधेयस्य वेद्येर्वारिन्द्रवम् सङ्घाय वैद्वेर्यावन्नवर्धयन् आवत्सेन तरुणेन कुमारेण धे नितानम् वसुमने मधुधेयस्य वियन्त्रिण देवे उषासानक्ता इन्द्रज्ञे प्रयत्यक्ताम् देवे उषः प्रायादिष्टाम् शुक्ले चे अभूताम् वसुमने मधुधेयस्य वीतार्येण देवे लोष्टे वधुषिणे देवमिन्द्रमवर्धनाम् अयाव्यन्याघाद्वेषागुंसे आन्यावाः क्षेत्रसुवार्याणि यजमानाय शिक्षिते वसुपने मनुखेयस्य वेदान्य देवे मोर्जाहुते दुखे सुदुघे अयसेन्द्रमर्थम् विषमोर्जमन्यावाचेन सिम् सवेजमन्या नवे नवोर्मन्दयमाने पुराणेऽणवम् अथा धामोर्जमोर्जाहुदेव सुमार्याणि यजमानाय शिक्षिते पशुपने मरुधेयस्य मेताम् किल देवादेव्याहोतार देवमिन्द्रमवर्धता अगाम् पशुमार्यामि विजमानायक्षितौ पशुपने मृधेयस्वीताम् कि च देवेस्तिस्रस्तिस्रौ देवेः परिमिन्द्रमवर्धयन् अस्पृक्षद्भारदेदिवम् वृद्धैर्यज्ञकम् सरस्वती वसुमतीर्विहारे वसुवने वजुधेयस्य वियम् द्विजा देवैन्द्रवणराशगुन्धः विवरोचस्थितिवन्धुरः देवमिन्द्रमवर्धे दे। शरेण यदि पृष्ठा नामाहिनः हास्रेण ना प्रवर्तते मेत्रावरुणेदस्य होत्रपरिहदः बृहस्पतिस्तोत्रम् अश्विनाध्वर्यवम् वसुवने वजुधेयस्य वे द्विजा एन्द्र मन्मा मधुशाखस्वपि पलः देवमिन्द्रमवर्धय आन्तरिक्षम् पथिदेवदगृंहे असुवने मधुधेयस्य वेद्युज देवम् ब्रहेवार्येण देवमिन्द्रमवर्धयते साहस्रमिन्द्रेणासन्नम् अन्या बर्हेष्भ्यभूर असुवलेवयस्य वेद्य देवो अग्निस्पृष्टकृते देवमिन्द्रमवर्धयते अश्विनेन्द्रकं सरस्वती अजोधूम्रो न गोधूमेश्वलैर्भ्य हृदम् मधुक्षकैर्न तेजलेन्द्रियम् पर्य परिसृता कृतम् मधु प्रियन्द्वाज होतरेण होताय कर्तनो न पात्सरस्वती अभिर्मेषो न अश्विनेन्द्राय वीर्यम् मदरेभिर्भेडजन्तोक्मभिः परश्रमः परिश्रुताहृतम् मथो गियन्तार्यस्य होतर्यज होताय क्षन्दनाशकम् सन्ननग्नहुम् प्रतिविन्दुराय भेडजम् मेषसरस्वती भिडग अथो न चन्द्रश्विनोः पपा इन्द्रस्य वीर्यम् पदरेर्पपाकाभिर्भे दोक्मभिः पयःसमपरिसुता कृतम् अथ वियन्द्वाद्यस्य होसरेण होताय कृते निजार्वारः सरस्वती इन्द्रम् बरेण वर्धयन् रभेण रवेन्द्रियम् अर्शिनेन्द्राय वीर्यम् यवेः कर्कन्धुभिः मथुराजेर्नवासरम् पयःस्रमपरिस्तुता कृतम् मधु विरन्द्वार्यस्य होतविजना बोधायक्षद्वर्यः सुष्ठदा बिरन्नाधत्या विरजाश्विनाश्वारग्धेन सरस्वती बिहग्दुहे इन्द्राय भेणजम् पयः परिस्तुता घृतम् मधु विरन्द्वाजस्य होतविजना होधायक्षद्दुरोधिजा अपश्यानम् विरस्पतेः अश्विभ्यान्नरोधिषः इन्द्रो नुहेः दुहे कामान् सरस्वती अश्विने इन्द्राय भेडजम् शुक्रन्नज्योतिरिन्द्रियम् पयः परिस्तुता घृतम् अथ वियन्ताज्यस्य होतविज होदायक्षच्छुतोषेण क्रम् दिवाः अश्विना सञ्जानाने समुञ्जाते सरस्वत्या भेडजम् हृदा अयस्वामः परिष्वदाहृतम् अथो वियन्त्वाज्यस्य होतविज होतायक्षद्देव्या होताभिरजाश्विनाः इन्द्रन्नजाग्रवेदिवानग्जेः शोषकुन्दरस्वदेभिजगे श्रीसेन तुन्द्रियम् अयस्वामः परिष्वताहृतम् अथो यन्त्वाज्यस्य होतविज होतायक्षत्तिस्व देवेऽन्नभेटजम् हरे स्त्रिराजवापदः रोपमिन्द्रेरन्ययम् अश्विने दानभारते वाचाधरस्पतीन्द्रायधरेन्द्रियम् पयसवः परिसृता कृतम् मथ वियन्तास्य होतबीडायक्षत्वष्टारविन्द्रमश्विनाः बिरजन्द्रधरस्पते ओ जोलजोतेन्द्रियम् श्रियाणमाधरम् पयःस्वामपरिष्मृता कृतम् मधु वियन्द्वाजस्य होदर्यज होदायक्षद्वनस्पतिम् श्रमितारम् शतकृतुम् देवन्नमन्यगुम् राजानम् व्याघ्रन्नमथानाभामम् सरस्वते भिरगे इन्द्राय दुहैन्द्रियम् पयःस्वामप्परिष्कृता कृतम् मधु वियन्द्वाजस्य होदर्यज होदाय स्वाहा मेतसाम् पृथग स्वाहा चागमश्यभ्याः स्वाहा मेटकुम् सरस्पत्यै स्वाहऋणफरेन्द्राय जगुम्भाय सरहेन्द्रियम् स्वाहाज्ञन्नभेदजम् स्वाहासाममिन्द्रियम् स्वाहेन्द्रकम् सत्रामानकुम् सवितारम् वर्णम् विरजाम्पदिम् स्वाहा वनस्पतिम् प्रियम् बाधवनभेदजम् स्वाहाजपान स्वाहाग्निर्होत्रापिषाणो अज्ञविभेडजम् अयः सोमपरिष्कृता घृतम् मधो वियन्ताज्ञस्य होदर्जना होता यक्षदश्विना हरस्पतीन्द्रकम् सुत्रामाणम् इमे सोमाः सुरामाः छागैर्ण मेधैरभैश्रिताः शष्पैर्णदोग्मपि नाजर्न हस्पन्दः परामासरेण परिष्कृताः शुक्राः पविष्वन्तोऽ मृताः प्रस्थिता वोमधश्चितः अश्विना नरस्पदे नः सुद्रामावृत्रः इषन्तागम् सौम्यम् मथु इळन्त मदन्त मियन्त सामम् तप्तो खण्डः सरस्पदे सोमकम् शुक्रमिहेन्द्रियम् इन्द्राय मधु निर्वहान् इन्द्रायुसरस्वतीनाविषम् समो जगुंसम् अश्विना नोमगुम् शुक्रम् परिस्रुताः सरस्पतीभर कवश्याणव्यचस्पतेः अश्वभ्यान्नरोदः इन्दुरानरोदये कामान् सरस्वती उषासा नक्तमश्विना दिवेन्द्रकम् सागेन्द्रियैः सञ्जानाने नृपेशसा समञ्जाते धरस्पत्या पातम् नाश्विनादिवाः काहिरक्तकम् सरस्वती पातमिन्द्रकम् सजा सुते विश्वस्त्रेधा अश्विना भारतीस्तुता सोमम् इन्द्रायर्मदम् अश्विना भेडजम् मधु भेडजन्नः सरस्वती इन्द्रे रूपकम् रूपमथः सुते वनस्पतिः यशमानः परिस्तुताः केलानपश्युभ्याम् मधु द्विभेधेन सरस्वती गोभिर्नतोमश्विना मातरेण परिष्कृता समधाता धनस्पत्या स्वाहेन्द्रे कृतम् मधु अश्विना अविरिन्द्रियम् नमुचेर्धिजास्वती आशुक्रमादुरात्मसु मघमिन्द्रायभ्यदे यमश्विना धरस्पती रविन्द्रम् वशवस्तुजा अश्विनाभाधरस्पदेभ्यनौषदा भगया यज्ञमिन्द्रियम् यीन्द्रेन्द्रियम् तथो सवितावरुणभगः सत्रामाहविष्पतिः यजमानायतश्च सवितावरुण तथच यजमानायताशुचेः आदत्त नमुचे रसो सुत्रामा बलमिन्द्रियम् वरुणः क्षत्रमिन्द्रियम् भगेन सविताश्रियम् सुत्रामायशसा बलम् तथा न यज्ञमाशदा अश्विनागोऽभिरिन्द्रियम् अश्मभिर्वेर्यम् बलम् अविजयन्द्रकम् सरस्वती यजमानमर्थयन् सत्या सुमेशसा हिरण्यवर्तने नरा सरस्पति हविष्पदे इन्द्रकर्मसुनापदा ताभिडजासुकर्मणा ता इन्द्रादिदुरिन्द्रियम् एवम् बलगिः सरस्पदे सदेवमिन्द्रियाश्विनाः ते जौनचक्षुरक्षाः बर्गिषादधुरिन्द्रियम् वसुपने वुषेयस्थलियन्तु यज देव्ये द्वारो अश्विनाः भिरजेन्द्रियसरस्पदे प्राणन्न द्वारो दधुरिन्द्रियम् वसुपने वसुषेयस्थलियन्तु यज देवी कुषासा अश्विनाः विरजेन्द्रयधरस्पदीनवाच मास्ये उषाभ्याम् द्रथरिन्द्रियम् वसुवने वसुधेयस्य विजन्त्रेज देवीज्योष्टि अश्विनाः सुत्रामेन्द्रियधरस्पदी त्यश्विना शुक्रन्नज्योतिस्तनयो धत्त इन्द्रियम् असुपने वधेयस्य वियन्त्वज देवादेवानाविन्द्रमश्विनाः वृषकारे सरस्वतीहृदयेभयम् गोदर्भ्याम् दशरिन्द्रियम् असुपने वुधेयस्य विजन्त्वज देवे स्तिस्रस्तिस्रेवेः सरस्वत्यष्मिना भारतीडाः सूषण्णमध्ययनाभ्याः इन्द्राय दशरिन्द्रियाम् वसुवने वुधेयस्य रवियन्ते च देवेन्द्रोऽराशगुन्तः प्रवदुषः सरस्वत्याभ्या मीयते तथात्रम् इन्द्राय त्रशरिन्द्रियाणि वसुवने वधुधेयसि रवियन्ते च देवेन्द्रोवनस्पतिः परस्पत्याः सुविक्पलः इन्द्राय वच्यते मथो वो ज्योनज्योतिमषभोनभामम् हनस्पचर्मदृशरिन्द्रियाणि वसुमने वृधेयस्य वियन्त्रयज एवम् परिहर्वारिदीना अध्वने स्त्रीर्णमश्रिभ्याः वोन्नम् दासरस्वत्याः श्योनमिन्द्रदेशदः ईशानीमन्यम् बहिरादृशरिन्द्रियाम् वसुमने वृधेयस्य वियन्त्रयज देवाग्निस्पृष्टकृते देवानियक्षद्यथायुधम् होदा राविन्द्रमश्विना वाचावाचकुन्दरस्पदे अग्निगुंसोऽमग्निस्पृष्टकृते स्पृष्टहिन्द्रसुत्रा वाचविता वरुणाभिषगे इष्टो देवो वनस्पदे स्पृष्टा देवाद्यः इष्टो अग्निरग्निना होदाहोत्रे स्पृष्टकृते इष्टो न ज्ञस्पथापनस्य विजन्तय च अग्निमध्यहोदानवणेज अयगंसुदा सुचन् पक्तेः पचन्परोन् भद्रानश्विभ्यान् साकम् धनस्पत्या इन्द्राय भद्रान् सरस्पत्यै मेघविन्द्रायाश्विभ्याः भद्रनिन्द्राय ने सोपस्था अद्य देवो वनस्पतिरभवज अश्रुभ्याच्छागेन सरस्वत्या इन्द्राय सरस्पत्यै मेघेणेन्द्रायाश्रुभ्याः इन्द्राय मृगेणाश्वुभ्या गुन्दरस्पत्यै पाक्षग्रस्तान्मे गस्तप्रतिमजताग्रभेदः अवयवन्तग्रहेः अपादामश्विना नरस्पतेन्द्रः सुत्रामावृत्रः सोमान्सुराम्नः भो उक्तामदाशौदिमदा अदन् अवीभ्रन्ताम् घोषेः स्वामद्भ्यर्ष आदिनपादवर्णेका अयवंसतासु यजमानः बहुभ्यः सङ्कतेभ्यः एष मे देवे शुभसुवार्यायक्षतैरे दे। ताया देवादयपदानान्यः दे तान्यस्व आचरा स्म आचगुरस्व इषितश्चभद्रवाच्याय प्रेषितोवानुषः सोक्तवाकाय्रोहिशत आनो अग्नसु कैतुलापुंसा महे भगंत पितर स्वामोसा पिता हवामहराशु एनो अर्वन्तः स्वहवा भवन्तो शन्ना भवन्तभ्युपदे शम् चतुष्पते ये अग्निस्वार्ता येनवार्ताः अगुम्हो मृचः पितरः सोमन्यासः परे परे मृता सो भवन्तः दुग्धे युजमानाः करम्भम् वीराणा अपरे परे च अग्निस्वार्ता तुभिः संविधानाः विरग्ने कव्यवाहनत्वमग्निः जितो जातवेदः मातलीकव्यैः एता सुवृत्ते अत्राजेहमानाः गोत्रापधस्तोपकष्टासो अर्कैः आग्नेयासर्वान् सर्ते कव्ये प्रतिभिर्धर्मसद्भिः अव्यवाहमजलम् पुरप्रियम् अग्निर्धृेन हविशासपर्यन् उपायव्यवाहम् वितृणाम् सलः प्रजाम् वेलवदेगम् समन्वतो भवता यक्षिरस्पदे स्वमिधानम् महद्भिः सुषमिद्धम् वरे अन्यम् अग्निमिन्द्रम् व योधनम् आयत्रीम् छन्द्रियम् व योत वेत्वाद्यस्य होदर्युज भोता यक्षच्छुचव्रतम् ततोनपादमुद्भिदम् यम् गर्भमलर्धसे शुचिमिन्द्रम् वेत्त्वाजस्य होदर्यज भोतायक्षपीडेन्यम् पीडितम् वृत्रहन्तमम् पिताभिरेढ्यम् सः स्वामीन्द्रम् वयोधनम् अनष्टहच्छन्देन्द्रियम् त्रिपत्सङ्गाम् वयोधत वेत्त्वाजस्य होदर्यज भोतायक्षत्सुपरिहदम् ऊषण्मन्दमवत्यम् सीदन्दम् परिहृषक्रिये बृहती चन्द इन्द्रियम् पञ्चालिङ्गाम् वयोधत वेत्वार्यस्य होदर्यज भोतायक्षद्गजस्पतेः स्वप्रायणार्तावृथः द्वारो देवेरिरन्ययेः ब्रह्माणेन्द्रम् वयोधरम् पङ्कम् चन्द इहेन्द्रियम् प्रियवाहङ्गाम् वयोधत द्वेस्य गुभे ोषासा न दर्शते विश्वमिन्द्रम् वयोषधम् पृष्टुभञ्छन्द इन्द्रियम् पष्ठवाहङ्गाम् वयोधज वेत्वाजस्य होतर्यज भोता यक्षप्रचेतसा देवानामुत्तमैषः भोदा राधेव्या कवि शैलेन्द्रम् वयोषसम् जगतीच्छन्द इहेन्द्रियम् अनद्वाहङ्गाम् वयोदथ च भोता यक्षत्पेशस्पतेः विश्वदेवेरिैः भारतेऽर्बृहतेर्हीः परिमिन्द्रम् वयोधसम् विराजन्दविहेन्द्रियम् धेनुङ्गान्नवयोत वेत्वाज्यस्य होदविनायक्षत्सुरेतसम् पुष्टानम् पुष्ट्यवर्धनम् रूपाणि बिभ्रतम् पृथय पुष्ट्यमिन्द्रम् वयोधसम् इहेन्द्रियम् भुक्षानङ्गान्नवयोधर वेत्त्वार्यस्य होदर्यज होतायक्षच्छदक्रदम् हिरण्यवन्नमुक्थिनम् रजनाम् बिभ्रदम् वशम् भगमिन्द्रम् वयोधसम् रघुभच्छन्द्र इहेन्द्रियम् वशाम्यहनङ्गान्नवयोधर वेत्त्वार्जस्य होदर्यज होतायक्षत्साकृतेः गृहपतिम् प्रथय वरुणम्भे रजम् कविम् क्षत्रमिन्द्रम् वयोधनम् अधिच्छन्दनम् छन्द इन्द्रियम् वयोदश्वाग्स्य होदरेण समिध्वाज्ञः समिधाः सुध्वरेण्यः गायत्रीछन्द्रियम् प्रविन्द्रोर्वयोदसः अनो नपाक्षितिव्रतः इन्द्रियम् नित्यवाद्योर्वयोदशः इडाभिरग्नेर्यः सोमो देवो अमर्त्यः अनष्टछन्द्रियम् बृहत्सो गौरवयोदशः स्वपरिहरज्ञः पूषण्णपरिहरमत्यः बृहती छन्दयम् पञ्चाविद्गौवयोदशः दुरो देवेऽर्तिशो महीः ब्रह्मादेवो बृहस्पतिः पङ्क्तिश्छन्देन्द्रियम् गौरवयोदः उषे यक्विषसा विश्वे देव प्रष्टप्च्छन्द्रियम् अष्टवाग्लौर्वयोदसः देव्याहोताराभिरजा इन्द्रेण जगतिच्छन्दहेन्द्रियम् अनद्वाङ्गौर्वयोदसः त्रिस्रयिणादस्पदे भारते मरुतो विषः दयाक्षन्दहेन्द्रियम् धेनुर्गौर्वोदसः अष्टादलेपो अद्भुतः इन्द्राग्ने पुष्टिमथना विवाच्छन्दहेन्द्रियम् वुक्षागौर्नवयोदशः समिता नवनस्पतिः समिता कृसुबन्धगम् कपुक्षन्द इहेन्द्रियम् वशा मेहद्गौर्नवयोधः स्वाहायज्ञम् वरुणः सुक्षत्रोभेडजम् कलज हिक्षन्दाश्छन्द्रियम्भो गौर्मयोदशः वसन्तेन त्वता देवाः बसवृतास्तुतम् हवेन्द्रेणयोदशः भीष्मेण देवा ऋतुनाः रुद्रापञ्चदशे स्तुतम् रहतायषचापलम् हवेन्द्रेव ज्योतिषः वर्षाभिरितुना नित्याः स्वोमे सप्तदशे स्तुतम् वैरूपेण विशौजसा हवेन्द्रेव ज्योतिषः शारदे तुना देवाः एकविंशदवस्तुतम् वैराजेण श्रिया श्रियम् हवीन्द्रेव ज्योतिषः हेमन्ते रक्तुना देवाः मरुतस्तु नवे स्तुतम् वरेण शक्वरेः सह अवीरिन्द्रेव योधसः श्रीशिरेणक्तुना देवाः त्रयस्त्रिपुंसेव तज्ञस्तुतम् सत्येन रेवतीयेः क्षत्रम् अवीरीन्द्रेव योधसः एवम् बरिहरिन्द्रम् वयोधसम् एवम् देवो वर्धयत् गायत्रियाक्षन्दतेन्द्रियम् ते वसुमने मधुधेयस्तवे द्वियज देवेद्वाहरो देवमिन्द्रम् वयोधतम् देवेमवर्धयन् पुष्टिः छन्दजेन्द्रियम् दानमिन्द्रेव देवी देवम् वयोषधम् उषेरिन्द्रमवर्धता अनुष्टुहाछन्दजेन्द्रियम् वाचमिन्द्रेव योदसत् देवीज्योष्टे देवमिन्द्रम् वयोथसम् देवी देवमवर्धता बृहत्या छन्दजेन्द्रियम् श्रोत्रमिन्द्रैव योधस च वसुवने वसुधेयस्तवीताञया देवी भोज्याहुदी देवमिन्द्रम् वयोथसम् देवी देवमवर्धता पङ्क्त्याजेन्द्रियम् शुक्रमिन्द्रैव योधस च देवादेव्याहोदारादेवमिन्द्रम् योधसम् देवादेवमर्थताम् विष्णुभाच्छन्द्रजयेन्द्रियम् विषमेन्द्रेव योतथ च वसुवने मधुधेयस्त्व देवेऽस्तिस्रस्तिस्रो देवेऽर्थयोथसम् फलमिन्द्रमवर्धयन् जयग्रा छन्द्रजेन्द्रियम् फलमिन्द्रैव योतथ च वसुवनेवधेयस्तवियन्त्रियज देवोदराशपुंसो देवमिन्द्रम् व योधनम् देवो देवमवर्धयते विराजान्दजयन्द्रियम् हेदवीन्देव योगशते वृधेयस्य वेद्वि देवो वनस्पतिर्देवमिन्द्रम् व योधनम् देवो देवमवर्धयते विवदाच्छन्दजेन्द्रियम् भगवमिन्द्रेव योदशदे असुवने वृधेयस्य वेद्विम् बहिर्वारिदेनाम् देवमिन्द्रम् व योधनम् देवम् देवमवर्धयते ककुभाक्षन्दजेन्द्रियम् योतषत वसुमलेवो अग्निस्पष्टकृदेवमिन्द्रम्योतसम् देवो देवमवर्जयते अलीक्षन्त सा क्षन्दजेन्द्रियम् क्षत्रमिन्द्रेव योधत वसुभरेव दुधेयस्य वे तुयगा ओ